हरि ओं श्रीसीतारामचन्द्रभ्यं नमः अथ श्री अध्यात्मरामायणे अरण्यकाण्डे श्री अध्यात्मरा श्रीभागदेव उवाच अथ तत्र दिनं सीत्वा प्रभाते रघुनन्दनः माता मुनिं समामन्त्र्य प्रयाणायोपचक्रमे मुने गच्छ महे सर्वे मुनिमण्डलमण्डितम् विपीनम् दण्डकम् यत्र सम्भा ज्ञातुम् विहार्हसि मार्गप्रदर्शनार्थाय शिष्याज्ञप्तुमर्हसि श्रुत्वा रामस्य वचनं प्रस्यात्रि महायशः स्वाह तत्र रघुश्रेष्ठम् राम रामः सुराश्रयः सर्वस्य मार्गः द्रष्टा तं तव को मार्गदर्शकः तथापि दर्शयिष्यन्ति तव लोकानुसारिणः इति शिष्यान् समादिश्य स्वयं किञ्चित् तमन्वगात् रामेण वारितप्रीत्या अत्रि स्वभवनम् ययो क्रोशमाश्रम् तदो गत्वा तद च महतीं नदीम् अत्रे उपायो विद्यते न कुचोस्ते विद्यते नौका सुदृढा रघुनन्दन तारयिष्यामहेष्मान् वयमेव क्षणादिह ततो नावी समरूप्य सीतां राघव लक्ष्मणौ क्षणात् संतारयामासु नदीम्मुनि कुमारकः रामाभिनन्दिता सर्वे जग्मोहस्त्रे यथाश्रमं तावेत्या विपिनं घोरम् जिल्ली हंकारनादितम् नाना मृगे गणाकिरणम् किंह व्याघ्रादिभीषणम् राक्षसै से घोररूपै सेवितम् रोमार्चणम् प्रविश्य विपिनम् घोरम् रामो लक्ष्मणम् अब्रवीत् इतः परम् प्रयत्नेन गन्तव्यं सहितेन भे धनुर्गुणेन संयोज्य शरान्नपि करे दधत् अग्रे यास्याम्यम् पश्चात् तम्बन्द्वे हि धनुर्धर आवयोर्मध्यगासीत् मयिवात्मपरात्मनो चक्षुच्चार्य सर्वत्र दृष्टं रक्षो भयं वहत् विद्यते दण्डकारण्ये श्रुतपूर्वम् अरिन्दव इत्येवम् भाषमाणो तौ जग्मतु सार्धयोजनम् तत्रैका पुष्करिण्यास्ति कल्ला कुमुदोत्पलैः अम्बुजै शीतलोरेण शोभमाना व्यदृश्यते तत्समीपं मथो गत्वा पीत्वा तत्सलिलं शुभम् उषु स्ते सलिलाभ्यासे चरं छायामुपासितः ततो ददृशु आयन्तम् भासत्वं भयानकम् कराले दंष्टवदनं भीषयन्तं स गर्जितै वा मांसेनशूलाग्र ग्रथितानेकमानुषं भक्षयन्तं गजव्याघ्रं महिषं वनगोचरं जारोपितं धनुर्धृत्वा रामो लक्ष्मणमब्रवीत् पश्यभ्यात्महाकायो राक्षसोऽयम् उपागतः अयत्यभिमुखं नोग्रे वीरूणां भयमावहन् सज्जीकृतः धनुष्ठ मा भजनकन्दिनी इत्युक्त्वा बाणमादाय स्थितो वाचलह चतुर्दृष्टानाथं लक्ष्मणं जानकिं तदा अट्टहासं तत् कृत्वा भीषयन्निदमब्रवीत् को युवां बाणतोणीरे जटावल्कलधारिणो मुनिवेश धरो स्त्रीसा यो सुदुर्मधौ सुन्दरो मतमे वक्त्र प्रविष्ट कवलोपमौ किमर्थमागतो भ्रोरं वनं ध्यालय निशेवितं। श्रुत्वा रक्षो वचो राम स्मयमान उवाच तम् अयं राम त्वयम् भ्राता लक्ष्मणो मम सम्मतः एषा सीता मम प्राण वल्लभा वयमागता पितृवाक्यम् पुरस्कृत्य अर्थं भवादृशाम् श्रुत्वा तद्रामवचनम् अट्टहासम् अथोऽकरोत् व्यादाय व्यक्रम् बाहुभ्याम् शूलमादाय सत्वरः मां न जानासि राम त्वम् विराधम् लोकविश्रुतम् मद्भयान्मुनय सर्वे त्यक्त्वा वनमिदो गतः यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुध पलायतं न चेत् शीघ्रं भक्षयामि वामहम् इत्युक्त्वा राक्षस सीताम् आदातुमभिमश्चिच्छेद तद्बाहु शरेण प्रसन्न ततः क्रोध परितात्मा व्याधाय विकृतं मुखम् परद्वयं विराधस्य तदद्भुतम् इवाभवेत् ततः सर्प इवास्येन ग्रसितुं राममापत ततो ह चन्द्राकारेण बाणे नास्य महचरः चैदहृदिरोगेण पपात धरणी तले तदसीता समालिङ्ग्य पृशसं रघुत्तमः ततो द्वन्द्वयो नेदु दिवि देव गणेरिताः नन्दृतुश्चाप्सरारुष्टा जगुर्गन्धर्व किन्नरः विराधकाया सति सुन्दराकृति विभ्राजमानो विमलाम्बरावृते प्रतप्तचामेकरचारुभूषणौ विदृश्यता गृहे गगणैरविरिता प्रणम्य रामम् प्रणताति हरिणम् भवप्रवाहो परमं गृणकरम् प्रणम्य भूय प्रणनाम दण्डव प्रपन्न सर्वार्ति हरं प्रसन्नभिवाच श्रीराम श्री दलाय ताक्ष विद्याधरो हिमलप्रकाश दुर्वास साकारणकोपमूर्तिनाय सप्त पुरा शोध विमोचित सत्त्वया इतः परं तच्चरणारविन्दयो मूर्ति सदा मे तु भवोपशान्तये तन्नाम संकेतनमेव वर्णी करोतु मे कर्णपुटम् तदीयकम् कथामृतम् पातु करद्वियं ते पादरविन्दाचनमेव कुर्यात् शिरश्च ते पादयुगप्रणामम् करोतु नित्यम् भवदीयमेवं भगवते विशुद्धय ज्ञानमूर्तये आत्मा ीता रामाय वेद प्रपन्नं पाहि मां राम ज्ञास्यामि तदनुज्ञय देवलोकं रघुश्रेष्ठ माया मा वृणोतु ते इति दत्तेन प्रसन्नो रघुनन्दनः ततो वरं तदा प्रीतो विराधाय मामति गच्छ विद्याधराशेष माया दोषगुणाजितः त्वया मद्दर्शनात् सद्यो मुक्तो ज्ञानवताम्बरः मद्भक्ति दुर्लभा लोके जाता चेन्मुक्तिदायतः अत त्वं भक्ति सम्पन्न परं याहि ममाज्ञया रामेण रक्षो निजनं सुघोरम् शापादि मुक्तो वरदानमेवं विद्याधरत्वं पुनरेव लब्धम् रामं गृणन्निति इति श्रीमद् अध्यात्मरामायणे मामहेश्वर संवादे अरण्यकाण्डे प्रथमसर्गः श्री, श्री सीतारामचन्द्रार्पणमस्तु